मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 37 सेवन् मत्सरासुरसमागमम् श्रीगणेशाय नमः मुद्गल उवाच दैत्यानां वचनं श्रुत्वा सदैत्यो दैत्यो मूर्च्छितः सहसा भूमौपपात भयविह्वलः अनिश्वसन्दैत्यपस्तुतैराशु विधृतो नृपः सावधानं प्रचक्रुस्तं प्रयत्नैः परमैस्तदः त्वि मुहूर्तेन सम्बुद्धो मत्सरः प्रललापः किं जादम्भावि वा किं वा दैवेन विफलं कृतं तपःसा त्वमरत्वं च पृथिवी राज्यमञ्जसा मया प्राप्तं स्वसामर्ध्यादुलं तत् वृद्धा अहो हि बलवद्दैवं प्रयत्नो निष्फलो मदः अचिन्त्या मे भयप्राप्तिः पश्चात्सूर्योदयो यथा मृदा दैत्या असङ्ख्याश्च मदर्थं नात्र संशयः मृदौ पुत्रौ महाकालौ कालस्य कथमद्यतौ अधुना शोकसन्दप्तो मरिष्यामि न संशयः मृदौ पुत्रौ महाकालौ किं जीविते नमे। मे ब्रह्माण्डाधिपदेः पुत्रौ कथं तो निधनं गतौ कथमित्याहितं मे वरदानं महत्तरम् अहो पुत्रौ महावीर्यौ कथं मरणमापदुः याभ्यां स्वभुजवीर्येण चिदा विष्णुमुखासुराः अहो पुत्रौ त्यक्त्वा खोरे दुकार्णवे परे क्व गदौ वदतं वाक्यमभूतं निष्ठुरौ कथं सखींश्च पितरं वृद्धं त्यक्त्वा मां विषयप्रियमद्बलौ कथम् मृत्युमुपस्थितौ इति नानाविधं शौकं चक्रे दैत्येन्द्रपालकः तम् ते सभ्यवराः सर्वे सान्त्वया मासुरादराद वृद्धावूचुः नरोदनं प्रकर्तव्यम् त्वया दैत्येन्द्रनायक रणे मृदौ महावीर्यौ कीर्तिं कृत्वा महत्तराम् देहस्य मरणं नित्यं जन्म चैव तथा प्रभो किं चित्रं तच्च संजादम् येन शोचसि दैत्यप आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते मायामोहं परित्यज्य स्वस्थो भव महामदे जन्तोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि अतस्त्वं दैत्यराजेन्द्र सार्थकं त्वेदयो कुरु अथ वा तौ परित्यज्य वक्रतुण्डं जहिप्रभो अथ वा शरणं याहि येनैव कुशलं भवेद् वीरारुदन्ति कुत्रापि नैव जानीहि दैत्यप सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् एवं दैत्यो मत्सरक्रोधसंयुतः आदाय सकलं सैन्यं ययौ सङ्ग्राममण्डलम् मत्सरा सुरमायान्दं दृष्ट्वा शम्भ्वादयसुराः भयभीताश्च तं प्रोचुर्वक्रतुण्डं प्रणम्यते स्वामिन् समागदो दैत्यो मत्सरत्सप्रदाभवान् यस्याग्रे मशकदेवास्तृणरूपात् नरादयः यस्याग्रेवशवर्तिन्यश्रियसर्वार्थदायिकाः ब्रह्माण्डं कम्पदे यस्य भयात् सोऽयं समागतः यस्य राज्ये महाभागा जना दुःखविवर्जिताः सर्वर्तुफलदा वृक्षा मेखा कालप्रवर्षिणः यस्याज्ञा वश गश्वासौ तपत्येव दिवाकरः न शीदं प्रबलं तत्र मत्सरे राज्यभोगिनी नरोगाः प्रचरन्तीह भयभीदासम्मत न चोरादिसंत्रस्तं जगद्राज्यं प्रशासदि यस्य पूजा च सर्वत्र जगदि क्रियते जनैः सर्वमखिलं भुक्तं येन महात्मना कालो बिभेदियं दृष्ट्वा तदाज्ञापालको भवद कर्मखण्डनमप्यत्र कृतं येन सुरारिणा न स्वाहा न स्वधायत्र न वषत्कार एव मत्सरे राज्यकर्तरि न स्नानादिक्रिया यत्र न स्वधर्मस्वभावचः न वर्णाश्रमयोधर्मो मत्सरे राज्यकर्तरि देवाश्वापदतुल्या वनगोचराः अन्नवस्त्रादिसंहीना कृदा दैत्येन्द्रकेण भोः मुनयस्तपसाखीनाश्चापसामर्थ्यहीनकाः कृदा मत्सरदैत्येन सोऽयं स्वामिन् समागतः देवाङ्गनाश्च तत्कन्या महात्मना भुक्ता भोगा सोऽयं मत्सर नरकन्याः पशोः कन्या मुनिकन्याः पशो समाकृताः बलेननसमं यस्य ब्रह्माण्डे सोऽयमागतः यस्याष्टावरणायर्मृत्युर्न भवेच्च कदाचन सोऽयं समागतो दैत्यः पश्य पश्य इत्येवं ब्रुवतो देवान् वक्रतुण्डो महाबलः मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीद सिंहारूढो महाबाहुरेकदन्तविराजितः पाशाङ्कुशधरो भूत्वा ययौ सङ्ग्राममण्डलम् प्रमोदा मोदकाद्यैश्च संवृतं युद्धलालसं तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्रागभत्सयन् मत्सरासुर उवाच किमर्थमागतस्त्वमेव क्रतुण्डरणेग्रदः अद्यैव त्वां हनिष्यामि मामुखं मुखं दर्शय संग्रामं मूढोऽसि येन सङ्ग्रामं कर्तुमागत एव च न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः शम्भुविष्णुमुखैर्देवाैः प्रेरितस्त्वं न बुध्यसे मोहभावेन संव्यादो मत्सरेण युयुत्सुना हम्वामेक सैन्यं नात्र संशय पदादेन मे भूमिशीर्ण जायते खल तल प्रकारयुक्ता पर्वताशूर्णता गैग्रे कथमायाधकल ने शब्द शब्दगर्जनमात्रेण तंपदे सचराचरं तस्याग्रेत्वं त्वं सुसङ्ग्रामं किं करिष्यसि तद्वद ब्रह्माण्डं सकलं युद्धे जिदं येन प्रभावदः तदात्वं त्वं कुत्र गुप्तः संस्थितोऽसि भयभाविदः समीचीनमिदं मूढाधुना कलकृतं त्वया दृष्टे समीपगोजादोहदो मम भविष्यसि शरणं व्याहि मे दुष्टजीवितुं यदि चेच्छसि मदाज्ञावशगो भूत्वा वने तिष्ठ यदा सुखम् मूढभावेन संयातं त्वां न हन्मि च निर्बलं प्रेरकान्मुनिदेवां स्ते तान्हनिष्यामि निश्चितम् ॐ तत्सदि श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्म महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते सरासुरसमागमो नाम सप्तत्रिंश्योऽध्यायः ओम्